अथर्ग्वेते सप्तमाष्टके षष्ठोऽध्यायः ॐ अयम् सजसृशर्मा नवोऽभिरग्ने रेदते चरिताभिष्टौ ज्येष्ठेभिर्यो भानुभिरऋषूणाम् परिजेति परिवीतो विभावाः यो भानुभिर्विभावा विभात्यग्निर्देवेभिरृता भानु वाजस्रः आयो विवाय सख्या सखिभ्यो परिहृतो अत्यो न सप्तैः ईशे यो विश्वस्या देववी ईदेशे एविश्वाजुरुषसोऽभ्युष्टौ आयस्मिन्मनाहवीं श्यज्ञापरिष्टरतस्कभ्नादिशोषैः शोषे भर्घृधोषाणो अर्कैर्देवा अच्छा आ रघुपत्ता आजिगाति मन्द्रोः रासजुह्वा आयजिष्ठः सम्मिष्टो अग्निराजिगर्तिदेवान् तमुस्रामिन्द्रन्दरेजमानमग्निङ्गिर्भिर्नमोऽभिराकृणुद्भ्वम् आयम् विप्रा आसो मतिभिर्गृणन्ति जातवेदसञ्जुह्वम् सहानाम् संयस्मिन् विश्वावसू निजग्मुर्वाजेनाश्वाः सप्तवन्त एवैः अस्मे ऊतीरिन्द्रवादतमा अर्वाचीना अग्नः करुष्वा अथा ह्यग्ने मह्ना निषद्याः सद्यो जज्ञानो हव्यो बभूथ तन्ते एदेवासो अनुकेतमा जन्नदा वर्धन्तप्रसमास उमाः स्वस्ति नो ओ दिवो अग्ने पृथिव्या विश्वायुर्धेः यजथा यदेव सचेमहितपदस्मप्रकेतैरुष्याण उरुभिर्देवशंसैः इमा अग्ने मतयस्तुभ्यम् जाता गोभिरश्वैरभिरुणन्ति राधाः यदा ते मर्तो अनुभो गमानड्वसो तथा नो अग्निम् मन्ये पितरमग्निमापिमग्निम् ह्रातरम् सतमित्सखायम् अग्नेरने एकम् रहतः स पर्यम् जविशुक्रम् यतम् सूर्यस्य श्रिध्रा अग्नेसिजोः अस्मे सनुत्रैर्यन्त्राय शेतमहानित्यहोता वृताभासरोहितश्वः पुरुक्षुर्जुभिरस्माहभिर्वा ममस्तु भिर्हितम् मित्रमिव प्रयोगम् रत्नमृत्यजमद्भरस्य दारम् बाहुभ्यामग्निमायमो जनन्त विक्षुहोतारण्यसाधयन्त स्वयम् यजस्व दिवि देवदेवान् किन्ते पापः कृणपदप्रदेताः यथा यज ऋतुभिर्देव देवानेवायजस्वधन्मम् सुजात भवा आ अग्ने वितोत गोपा भवा आ वयस्क्रदुतनो वयोधाः रास्वाचनः सुमहोऽहव्यदा आचिन्द्रास्वोतनस्तन्वो अप्रयुच्छन् प्रकेतुना बृहदायात्यग्निरारोदसी वृषभोरोरवीति दिवश्चिरन्ताङ्गुपमाम् उदानळपामुपस्थे महिषोपवर्ध मुमोदगर्भो वृषभः क्रकुद्मा नः श्रेमा वत्सश्विमीवाम् अरावीत स देवतात्युज्यतानि कृण्वन् स्वेषु क्षयेषु प्रथमो जिगाति आयोभूर्धानम् अस्य पत्पन्नरुषीलुध्ना ऋतस्य योनौ तन्द्वो जुषन्त उष उषो निवसो अग्रमेसि त्वञ विभावा ऋताय सप्तदधिशे पदानि जनयन् मित्रम् तन्द्वे हे स्वाजै भुवश्चक्षुर्महृतस्य गोपा भुभो वरुणोय धृतायमेशि भुवो अपान्नपाज्जातवेदो भुवो दूतो यस्य हव्यञ्जुजोषः भुवो यज्ञस्य रजसश्च नेता यत्रा नियुर्भिः सदसे शिवाभिः दिविमूर्धानन्दधिशे स्वर्षान् जिह्वामग्ने चकृषेऽव्यहम् अस्य त्रितः क्रतुना पौरे अन्तरिच्छन् धीतिम् पितुरे वैः परस्य सदस्यमानः पित्रोरुपस्थेजामि ब्रुगाण आयुधानि वेदे स पित्राण्यायुधानि विद्वानिन्द्रेशित आप्यो अभ्ययुध्यत ऋषीदृषाणम् सप्तरस्मिञ्जघन्दान्त्वाष्ट्रस्य चिन्निः सृजे त्रितो गाः भूरेदिन्द्र उदिनक्षन्तमोजो वा विनत्सत्पतिर्मन्यमानम् ष्ट्रस्यचिद्विश्वरूपस्य गो नामाचक्राणस्त्रीणि शीर्षापरा वर्ग आपोहिष्ठामयो भुवस्तान ऊर्जे दधातन महेरणाय चक्षसे यो वः शिवतमोरसस्तस्य भाजयते हनाः उशरीरिव तस्मा रङ्गमामपोयस्य क्षयायजिन्मथ आपो जनयथा च चन्नो शन्नो देवेरभिष्टय आपो भवन्तु भीरजे शञ्योरभिस्रवन्तु नः ईशा अनावार्याणाङ्खयन्तीश्चर्षणीना अपोयाचामिभेषजम् अप्सु मे सोमो अब्रवीदन्तर्विश्वानिभेषजा अग्निम् च विश्वशम्भुवम् आपः प्रणीतभे शदम्बरोऽथम् तन्वे ज्योक्षसूर्यम् नृषे इरमापः प्रवहत यत्किञ्च दुरितम् मयि यद्वाहमभिरुद्रोह यद्वासेव उता कृतम् आपो अद्यान्मचारि संरसे न समवस्महि पयस्वानग्न मासं मासंसृजवर्चसा ससृषीस्तदपसो दिवानक्तम् च ससृषे वरेण्यक्रतोरह मा देवीरपसे हुवे को चित्सखायम् सख्या वृद्ध्याम् तिरः पुरोचिदर्णवम् जगन्वान् विदुर्नपातमादधीतवेशा अधिक्षमिप्रतरन् दीध्यानः ते सखाः सख्यम् वष्ट्येतत्सलक्ष्मा यद्विषुरूपाभवादि महस्पुत्रासो असुरस्य वीराधिपो धर्तार उर्विरापरिख्यन् वुशन्ति घाते अमृताः स एतदेकस्य नित्यजसंमर्त्यस्य निते मनो धाय यस्मै जन्युःपतिस्तन्वा अमाविविश्याः न यत्पुरा च कर्मागद्ध गन्धर्वो अप्स्वप्याः च योषासा नो जामितन्नौ गर्भेऽनुनौ जनिता दम्पते कर्देव स्पष्टाः सविता विश्वरूपः न किरस्य प्रमिनन्ति वृता निवेदनाभस्य पृथिवी को अस्य वेदप्रथमस्यान्नः करीन्द्रदर्शक इह प्रवोचत् बृहन्मित्रस्य वरुणस्य धामकलु ब्रव आनो यमस्य मायम्या अङ्कामागन् समाने यो नौ सहसेय्याय रायेमपत्ये तन्नम् ऋच्याम् विजि गृहे वरुच्छे एव न तिष्ठन्ति न निमिषन्त्येते देवानाम् स्पश इह ये चरन्ति अन्ये न मदाहनो याहितो यन्ते न विरहरत्येव चक्रा रात्रेभिरस्माहभिर्दशस्येत् सूर्यस्य चक्षुर्मोरुमीयात् दिवा पृथिव्यामि सुना सबन्धो यमेर्यमस्य आघाता गच्छानुत्तराजुगा नियत्तमयः कृणबन्धजामि उपपर्गृहे वृषभाय बाहुमन्यमिच्छस्व सुभगे पथिम्वत् किम्भ्राता सद्यदनाथम् भवाति किमुस्व सायञ्जरतिर्निगच्छात् काममोतापह्वे एतद्रपामि तन्वामे तन्वांसम् विवृध्ये न वा उते तन्वा तन्वा हंसम् ववृच्याम् आपमाहुर्यस्वसारन्यगच्छात् अन्ये नवत्प्रमुदः कल्पयस्वन ते भ्राता आसुभगे पतोपताशियमनैव ते मनोहृदयम् चाविदाम अन्या किल त्वाम् कक्ष्ये एव युक्तम् परिष्वजाते रिपुजेव वृक्षम् अन्यमूषुत्वञयम् यन्य उत्त्वाम्बरिष्वजाते रिपुजे म वृक्षम् तस्य वा त्वम् मन इच्छा स वात बाधा कृणुष्व संविदम् सुभद्राम् दृशा वृष्णेः दुदुहेतोहसादिवःपयाम्सिो दु हरितेरलाभ्यः विश्वम् सवेदवरुणो यथाधिया स यज्ञो यजतु यज्ञाम् प्रपद्गम् चर्वीरप्या चयोषणानरस्य नादे परिपातु मे मनाः इष्टस्य मध्ये अलितिम् निधातु नो भ्राता नो ज्येष्ठः प्रथमो विमोचते ोचिन्नु भद्राक्षुमते यशस्वत्युषा उवासमनवे स्वते यदे मुषन्तमुषतामनुक्रतुभग्निम् होतारम् विदथा यदीजनन् अधत्यम् द्रप्सम् विद्धम् विचक्षणम् विराभरति शिदश्येनो अध्वरे यदि विशो वृणते यस्ममार्याः अग्निम् होता रमधीरजायता सदा आसि रण्वो यवसे भुष्यसे होत्रा अभिरग्ने मनुष स्वरः विप्रस्य वायच्छसमान उक् अम्बाजम् स समाजासि उदीरय पितरा आचारमियक्षति हरि यतो हृत्तविष्ये विभक्तिवह्निस्व पस्यते असुरो असुरोगेपते मति यस्ते अग्ने सुमतिम् मर्तो रक्षत्सह तस्सो रोपति स प्रसृण्मानो अश्वैरा सद्युमान् अमवान् भूषदिद्यो यदग्न एषा समितिर्भवादि देवी देवेषु दे यदराजत्रा रत्ना च यद्विभजासि स्वधावो भागम् नो अत्र वसुमन्तम् अग्ने सदने सुतश्चे युक्ष्मार्थमरुदस्य द्रवित्नुम् आनो अवहरोदसी देवपुत्रे मा किर्देवानाम बभूरिहस्या द्यावा आह क्षामा प्रथमे ऋतेनाभिश्रावे सत्यवाचा देवोऽयन्मर्ता अन्यथा आय कृन्से दद्धोता अप्रत्यङ्मसूयन् देवो देवान् परिभो रते नो हव्यम् प्रथमश्चि गत्वान् भूमगे हेतुः समिधा भारुदैवो मन्द्रोः दानित्यो ओवाचा यदीयान् स्वावृत्देवस्यामृतञ यदी गोरुतो ओजातासो ओधारयन्त विश्वे एतेवा अनुदत्ते दुर्गुर्ध्वरे यते नेतिव्ययम् घृतम् वाह अर्चा आमिभाम् मर्धायापो घृतस्नोद्या वा भूमिः अहा रोदसीमे आहायद्यापोसु नेतिमयम् मध्वा नो अत्र पितराशिषीता किंस्मिन्नो राजा जगृहे कतस्या देवरतम् क्रमाको विवे मित्रश्चिद्धिष्माजुः राणो देवाञ्छोको न यातामभिवाजो अस्ति दुर्मन्तत्रामृतस्य नाम सलक्ष्मा यद्भिषुरूपाभवादे यमस्य यो मनवते सुमन्दग्नेतमृष्टबाह्य प्रयुच्छन्न यस्मिन् देवा विदधे मादयन्ते विवस्पतः धारयन्ते सूर्ये ज्योतिरलधुर्मास्या अक्तोऽन् परिज्योतरिञ्जरतो अजस्रा यस्मिन् देवा मन्मनि सञ्चरन्त्यवीच्ये नयमस्य विद्ना मित्रो नो अत्रादितिरनागान्सविता देवो वरुणा अवोचत् श्रुथीनो अग्ने सदने सतस्थे युक्ष्वारथमृतस्य अर्द्रविद्नुम् आ नो अव हरोदसी देवपुत्रे माकिर्देवानाम भूरिहस्याः युजे वा ब्रह्म पूर्यन्नमोऽभिर्विश्लोकयेतु मध्ये एव सूरेः शृण्वन्तु विश्वे अमृतस्य पुत्रा आये धामानि दिव्यानि तस्थुः यमे इव यतमाने यदैतम् आजे एतम् स्वमुलोकम् विदाहानेष्वास्थे भवतमिन्दवेन पञ्चपदानि रूपो अन्वरोहम् च दुष्पसीमन्वेतेन अक्षरेण प्रतिमिम एता मृतस्य नाभावधि सम्बुनामि देवेभ्यः कमवृणीत मृत्युम् प्रदान्नावृणीत बृहस्पतिम् यज्ञाकृशिम् प्रिया अम्रारिरेचीत सप्तक्षरन्ति शिशवे मरुत्वते पित्रे पुत्रा सोऽप्यगीवतम् धृतम् उभे यतस्योभयस्य राजत उभेयते ते उभयस्य पुष्यतः परे इवांसम् प्रवतो महेरुभ्यः पन्थामनुपस्पशानम् वैवस्वतम् सङ्गमरञ्जनायमम् राजानम् हविषादुपस्य यमो नो गातुम् प्रथमोऽवेदनैषागम्यो ऊलभक्ता यत्रा नः पूर्वे पितरः परेजुलेनाज्ञानास्प्या आनस्वाह मातले गव्यैर्यमो अङ्गिरोभिर्बृहस्पतिर्तभिर्वावृधानः यांश्च देवा वा आवृथर्ये च देवान् स्वाहान्ये स्वधजान्ये मदन्ते इमयमप्रस्तरमाहि सीताङ्गिरोभिः पितृभिः संविधानः आत्वा मन्त्रा आः कविशस्तावहन्ते नाराः जनविषामादयस्व अङ्गिरोभिरागहि यज्ञिरेऽभिर्यमवैरूपैरिहमादयस्व विभस्वन्तम् हुमेजः पिता तेऽस्मिन् यज्ञे वर्हिष्या निषद्या अङ्गिरसो नः पितरो न भग्वाचर्वाणो भृगवः सोम्यासाः ेषाम्भजम् सुमदौ यज्ञानामपि भद्रेऽसौ मनसे स्याम प्रेहि प्रेहि पथिभिः पूर्वेऽभिर्यत्रा नः पूर्वे पितरः परे यो उपा राजानास्वधयामदन्तायमम् पश्यासि वरुणम् च देवम् सङ्गच्छस्व पितृभिः संयमेनेष्टा पूर्तेन परमे व्योमन्य पुनरस्तमे सङ्गच्छस्व तन्दा सुवर्चाः अपेतवि एतवि च सर्पदातो स्म एतम् वितरो लोकमक्रन्न अहोभिरद्भिरक्तुभिर्वक्तम् यमो ददात्यवसानमस्मै अतिद्रवसारमेयौश्वानौ यदुरक्षौ शबलौ साधुना तथा आ पितॄं सुरत्रा उपेहि ये सुधमादम् वदन्ति यौते श्वानो यमरक्षितारौ यतु रक्षौ पधिरक्षे नृचक्षसौ ताभ्या आमेनम् परिधेहि राजन् स्वस्तिता आस्मानमे पञ्च धेहि पुरोणसापसुतृपा यमस्य दूतौ जथोजनाम् अरो ता वस्मभ्यम् य पुनर्दातावसु मध्येहभद्रम् यमायसोमं सुनुतयमायजुहृताहमिः यमंह यज्ञो गच्छत्यग्निरो अलङ्कृतः यमाय धृतवद्धमिर्जुहोत प्रचतिष्ठत स नो देवेश्वायमद्दीर्घमायुप्रजीवसे यमायवधुमत्तम्राज्ञे हव्यञ्जुहोतन इदन्नमरणेभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्यः ृगद्रुकेभिः पततिषनुर्वीरेकविद्बृहत् कृष्णुब्गाः यत्ते छन्दांसि सरुपातायम आहिता उदे एतामवर उत्तराः स उन्मध्यमाः पितरः सोम्यासायुरमृगास्तेनो वन्तु पितरोहपेश इदम् पितृभ्यो नमो अस्पत्यजे र्थिवेरदस्याजे वा नूनम् सुभृजनाः सुभिक्षु आहम् पितरम् सुत्रावित्सिनपादम् च विक्रमणम् च विष्णो बर्हिषतोजे स्वधजासु तस्य भजन्नरमि त्वस्तमिष्ठाः बर्हिषतः पितरऊत्या अर्वागिमाहो हव्या च क्रमाजुषद्धम् उपहूता सोम्या सो ओष्येषु निधिषु प्रियेषु त आगमन्तु श्रुवन्तधिक्रुवन्तु ते एवनुदक्षिणतोषद्येवै यज्ञमभिगेत विश्वे माहिंशिष्टपितरकेन चिह्नो यद्वागः पुरुषदाकरा आसे एनासो अरुणीनामुपस्थे रयीम् धत्तदाशु श्रेमत्या पुत्रेभ्यः पितरस्तस्य प्रयच्छ तत इहोर्जम् ददात येनः पूर्वे पितरः सोम्यासो नो हिरे सोमपीठम् एता आदृहते एवत्रा देहमानाहोत्राभिदस्तोमतष्टातो अर्पैः आग्ने याहि सुविरत्रे एभिदर्वाङ् सत्यैः कव्यैः पितृभिर्घर्म सद्भेः ये सत्यातो ये सत्यासो इन्द्रेण देवैः सरसन्दधानाः आग्ने याहि सहस्रम् देववन्दैः परैः पूर्वैः पितृभिर्घर्म सद्भे अग्निष्पात्ताः पितर एह गच्छत सदः सदः सतत सुप्रणीतयः अत्ताहवेंषि प्रयतानि परेष्यथा आरयिम् सर्ववेदम् दधातन त्वमग्न ईलितोजातवेदो वा्यानि सुरभेणि कृत्ते राजा पितर्भ्यस्पथजाते अक्षन्नद्धित्ते एव प्रयता हमेंषि ये चेह पितरो ये च देहयांश्च विद्मयाम् कुचलप्रविद्मा ुषस्व ये अग्निलग्धा ये अनग्निलग्धा मध्ये दिवस्वधया आमादयन्ते तेभिः स्वराळसु नीतिमेताङ्य वशन्तम् कल्पयस्व नैनमग्नेऽविदहोमाभिशोचोमास्यत्वचम् चिक्षिपोमा शरीरम् यदा श्रुतम् गृणवो अजातवेदोऽथे एमेनम् प्रहिणुरात् पितृभ्याः श्रुतम् यदा करसि जातवेदोऽथे एमेनम् परिदत्तात् पितृभ्याः यदा गच्छात्यसुनीतिमेतामथादेवानाम्बशनीर्भवाति सूर्यम् चक्षुर्गच्छतु वातमात्मात्याम् च गच्छ पृथिवीम् च धर्मणा अपोपा आगच्छयति तत्रिवास्तन्वो जातवेदस्ताभिर्वहैनम् सुकृताम् अवसृज पुनरग्ने विदृभ्यो यस्तहुतश्चरतिः आजनुवसा न उपवेदुशेषः सङ्गच्छतान्ततवेदः यत्ते कृष्णस्य पुनः आतुरोदपि वेदः सर्पदभाश्वापदः अग्निश्च द्विश्वानगरम् कृणोतु सोमश्च योऽप्रा बह्णाम् अग्नेर्वर्मोपर्ययस्वसम् इममग्ने चमसम्मा विदिह्वरः प्रियो देवानामृत सोम्यानाम् एषयश्च मसो दे एव पानस्तस्मिन् देवा, पानस्तस्मिन देवा अमृता आमादयन्ते क्रव्यादमग्निम् रहिणोमि दूरय्यमराज्ञो गच्छतुरिप्रवाहः इहैवायमितरो जातवे एदा देवेभ्यो हव्यम् वह तु प्रचारन्न यो अग्निः क्रव्यात्प्रवेशवो गृहमिमम् जातवे एतसम् तम् हरामि पितरयज्ञाय देवम् स धर्ममिन्दात्परमे सधस्थे यो अग्निः क्रौ यवाहनः पितरोऽन्यक्षदृतावृथाः प्रेतुहं यानि वोचति देवेभ्यश्च पितृभ्यः उषन्तः स्वारिधे एव ह्युषन्तः समिधे महिषन्नुषलावहमिषे अत्रवे यन्तमग्ने समलहस्तमुनिर्वा आपया पुनः कियाम् वक्त्ररोहतु पाकदूर्वाव्यल्कषा शीति के शीतिकावति क्लादिके क्लादिकावति पण्डूख्या आम इमम् स्वा अग्निम् हर्षय कष्टा आदुहित्रेवहतुम् कृणोते तैलम् भिष्टम् भुवनम् समे यमस्य माता पर्युह्यमाहानामहोजायामिवस्वतो न नाश अपा आगूहन् नमृताम् मर्त्येभ्यः कृत्वे ताश्विनावभरद्यत्तदा सेतजहादुत्वाविधुना सरण्योः पूषात्वेतश्च आवयतु प्रविद्वाननष्टपशुर्भुवनस्य गोपाः सत्त्वैतेभ्यः परिददत्पितुर्भ्यो अग्निर्देवेभ्यः सुविदत्रयेभ्यः आयुर्वविश्वायुजपरिपासदि त्वा पूषात्वा आपातु प्रपथे पुरस्तात् यत्रासते सुकृतो यत्र ते यजुस्तत्रत्वा देवः स पिता दधातु ओषे मा आशा अनुवेद सर्वा सो अस्माम् अभयतमे नेशत् स्वस्तिया आधृणिः सर्ववीरो प्रयुच्छन् पुर एतु प्रजानन् प्रपचे पचामजनिष्टभूषा प्रपचे दिलप्रपचे पृथिव्याः उभे अभिप्रियतमे शतस्थे आचपल आचतरति प्रजानन् सरस्वतीन्ये वयन्तो ओहवन्ते सरस्वतीमध्वरे दायमाने सरस्वतीम् कृतो ओ अह्वयन्त सरस्वती दाशुषे पार्यन्दा सरस्वतिया सरथी ययाथस्वधार्देवि पितृर्भिर्मदन्ते आसद्यास्मिन्वर्हिषिमादय स्वानमेवा इषहाधेत्यस्मे सरस्वतीयाम् पितरो हवन्ते दक्षिणायज्ञमभिनक्षमाणाः सहस्रार्घमिलो अत्र भागम् राजस्पोषञमानेषु धेहि आपो अस्मान्मातरः शुन्धयन्तु हृतेन हृतपः पुनन्तु विश्वम् हिरिप्रम् प्रवहन्ति देवेरुदिभ्यश्रुचिरापूतरे द्रप्सश्च स्कन्दप्रथमाङ्गरुद्यो रिमञ्जयोमजश्च पूर्वाः समानयोमनुलन्तोम्यनु सप्तहोत्राः यस्ते यद्रप्सस्कन्दति यस्ते ए, ए अंशुर्बाहुच्युतो धिषणा आया उपस्थात् अद्भर्योर्वापरि वायः पवित्रान्दे यजो मिमनसावषत्कृतम् यस्ते यद्रप्सस्कन्नो यस्ते ए, ए अंशुरवश्चयः परसृजा अयम् देवो बृहस्पतिः सन्तम् सिञ्च दुराधसे अपाम्बयस्वदिपयस्तेन मासः शुन्दत परम् मृत्यो अनुपरे एहि पन्थाञस्ते स्म इतरो देभयानात् चक्षुष्पदे शृण्वते ते अप्रवेभिमानः प्रजाम्रे एविन् मृत्योः पदञ्योपयन्तो यदैतद्रागे आयुः प्रतरन्द्रथानाः आप्यायमानाः प्रजजाधने एन शुद्धाः पूता भवत जिज्ञासः इमे जीवाभिमृतैराववृत्रम् नभो ओद्भद्रा देवः ओतिर्नो अद्य प्राञ्चो अगामनृतजेहसा आयद्राघीय आयुःप्रतरम् दधानाः इमम् जीवेभ्यः परिचिन्ददामिमैषान्नुगातपरो अर्थमेतम् शतञ्जे एवम् तु शरदः पुरुचिरन्तरम् वृत्युम् दधताम् पर्वतेन यथाहा अन्यनुपूर्वम् भवन्ति यथ ऋतव ऋतुभिर्यन्ति साधु यथा न पूर्वमपरोजः अत्येवाधा आतरायोंसि कल्पयैषाम् आरो हतायुर्जलसंवृणाना अनुपूर्वम् यतमानाय तिष्ठा यत्तष्टा असुजनिमा सुजोषा अदीर्घमायुकरति जीवसे एव इमानारेरविधवा सुपत्नीराञ्जनेन सर्पिशासम्विशन्तु अनश्रवो न मीवा सुरत्ता आरोहन्तु जनयो यो निमग्रे उदेर्पनार्यभिजय एव लोकम् गता सुमेतमुपशेष हस्तग्राभस्य निधितोस्तवेदम् मृत्युर्यनितमभिसम्बोध चतुरहस्ता आदाददा नो मृतस्यास्मे क्षत्राय वर्षसे बलाय अत्रैव त्वमिहमयम् सुबीरा विश्वा स्मृतो अभिमातिर्जयेम उपसर्पमातरम् भूमिमेतामुरुम् पृथिवीम् सुसेवा ऊर्णम् मृदायुपतिर्दक्षिणावतरेणात्वापातु निरृतेरुपस्थात्पृथिभिमानिपासोपायनास्मै भवसोपमञ्चना माता पुत्रै यथा आसिताभ्येनम् भूम ऊर्णुः पुरुच्छ्वमाना पृथिवी सुतिष्ठतु सहस्रंवित उपहिश्रयन्ता ते ग्रहासो ओघ्रतश्चुतो भवन्तु विश्वाः आस्मै शरणाः सन्पत्रा उत्तेस्तद्भ्रामि पृथिवेम् तत्परेमल्लोकन्विदधन्वोऽहम् ऋषम् एताम् स्थूणाम् पितरो ओधारयन्तु तेऽत्रायमः साधना ते विनोतु प्रतीचीरे मामहीश्वाः पर्णमिवादतुः प्रतीचीम् जग्रभावादमश्वम् रजनया यथा इति सप्तमाष्टके षष्ठोऽध्यायः